गणेशपुराणं क्रीडाघण्टम् अध्यायं नैन्टी वन् क उवाच तदद्वितीये वर्षे स बालो बालैरसङ्ख्यकैः चिक्रीडवाटिकामध्ये नानाद्रुमलदाकुले फलानि भक्षयामास खर्जूरी पनसानिज, खर्जूरीपनस ददौतेभ्यों दिबला स पाद्वा बहून्यपी कूडो नम महाद्यकूडमा करखल तत्सल्मायाणी विशानिसह। लोडयामास दुर्बुद्धि सर्वेषां हि जिकांसया येषां दुःस्पर्शमात्रेण म्रियन्ते प्राणिनः क्षणाद यदुद्धवायुना स्पृष्ठा निपतन्ति खगाभुवि तधक्कूढो गतस्तत्र नाश्य दिदृक्षया तदस्ते बालकाः पादुमज्ञानास्तु जलं ययुः पपुः सर्वे स्वचुलकैरञ्जलीभिश्च केचन मृतान् मत्स्यान् समादाय बहिर्यादामृतास्तदा रक्षको ग्राममध्येतु घोषया तन्मृतिम् तदो महारवं कृत्वा तत्रायुःसर्वनागराः ग्रन्दपाणितलैर्वक्षः पाषाणैरपरेशिरः हाहाकारो महानासीत् त्वं वद्धूयोषितामपि तेषामाक्रन्दनं श्रुत्वा शिवया अपि बालकः अजीवयदृष्टिपादैः सर्वां स्तान् पुरबालकान् क्रूरदृष्ट्या कूडदैत्यमृदं भूमौ न्यपेदयत् पञ्चयोजनविस्तीर्णाचूर्णिदां तेन वाटिकाम् ददृशुर्नागराः सर्वे कदिचिच्च पलायिताः सो जीवयज्जलचरान्निर्विशां वापिकां व्यथाद स्वं बालं समादाय सर्वेते ते स्वालयं ययुः प्रश शंसुशिवा बालं नास्तिकाः खलाः अस्य सङ्गादरिष्ठानि नश्यन्तीति परे ब्रुवन् तदस्तृतीयवर्षे तु प्रातःकाले द्रिजासुधः वञ्चयित्वा बहिर्यादो मुनिबालास्तमन्वयुः अहोरात्रवियोगेन परस्परमधाश्लिषन् त ऊचुर्निशि देवत्वा स्वप्ने पश्याम सर्वदा रात्रिर्युगसमादेव जायते इदानीं त्वां निरीक्ष्यैव प्रसन्ना स्मोऽखिला भूय यदा सुखं ततोऽर्थम् एकदो भूत्वा परेऽर्थे परतोऽपि च अभ्यघ्नन्पङ्गगोलेन नादयन्तो धरोदसी आह्लादे नाथ युध्यन्दो विकर्षन्धः परस्परम् रमन्तस्ते ययोर्दूरमाश्रमं कस्यचिन्मुनेः सरोवरे तत्र रेर्योजनायदविस्तरे सिच्छन्दोञ्चलिभिर्वारिद्वन्द्विभूता यया पुरा निमज्जस्कन्दमारुह्य मज्जयन्तो बलात् तदो ततो दैत्यो मत्स्यरूपी तेषु क्रीडारदो भवत आस्फालयन् कराकादैस्तज्जलं तेषु पुच्छतः कलुषात्तज्जलाद्भङ्गाजग्मुस्तीरं मुहुर्मुहुः तीरे दृष्ट्वा द्विजा पुत्रम् मत्स्यस्तन्निकडं व्ययौ व्याधाय वदनं दध्रे तदङ्घ्रीविचकर्ष च निनाय धावधावेति कोशयन्दं महाजले निमज्य स जले तेन चिरकालं महासुरः अरो दिशुर्मुनिसुधा मग्नं आहाकारं प्रकुर्वन्धः करपृष्ठोष्ठसंयुधं केचिद् गत्वा सरोरम्यं पश्यन्तो ददृशुर्न्नतं भवानी ताडनाद्भीता केचिद् बालाः पलायिताः केचित्ते बालका गत्वा शंसन्मग्नं शिशुं सर्वान्न क्रीडतो हेत्वा निदो मत्स्येन बालकः क उवाच श्रुत्वा तद्वचनं गौरी मूर्छिदा पदिदा भुवि मुहूर्ताच्चेतनां लब्ध्वा रोदमानाय यौ मुञ्चन्ती नेत्रजं वारिमस्तकात् पतिताञ्चला स्खलन्ती निःश्वसन्ती जपदन्ती धरणीतले सख्यस्ता मन्वयुः काश्चिद्धित्वा कार्याणि सत्वराः सरस्थिरं शीघ्रतरमागदा सखिभिः सह मुनयस् मुदन्तं च श्रुत्वा यादासरप्रदी अगाधेम्भसि ते के जिन्मग्नापुरुमासुदं तामूचुर्जननीं के जिन्मग्नानो बालकाजले तैः पुनर्न च धृष्टश्च मत्स्योदरगदः सुदः रोदनं पुनरारेभे गौरी श्रुत्वा तु तद्वचः उमोवाच मम प्राणागमिष्यन्ति विनादं सर्वसुन्दरम् अधिक्लेशेन संलब्धमधिपौरुषमीश्वरं चराचरगुरुं मायातीदं मायाविनं परम् अनन्दकोटिब्रह्माण्डनायगं विश्वसंभवं ललाडं निजखानोरो वारं वारं करेण सा रुरुदुर्मुनयो वीक्ष्य रुदीं तां तथा विधां निशम्यकरुणं वचः स्वयमण्डजरूपो भूयुयुधा ते परस्परम् तदा खातेन दिपेतिरे दंष्ट्राभ्यां दंशद स्मोभौ ख्नतस्म पुच्छाततः उदरम् स्वेदरेणैव पृष्ठं पृष्ठेन जग्दुः एवं चिरतरं युद्धं कृत्वा दारुणमोजसा मत्स्यरूपं गणेशोऽध बलाजघ्ने मुखे मुखं भग्नास्यो भग्नदर्पोऽसौ भग्ननेत्रो नेत्रो सः पपालजलमध्ये स पृष्ठे गात्स उमासुदः यत्र यत्र ययौ शोथ तत्र तत्राप्यसौ ययौ क्वचिल्लीनं तु तं दृष्ट्वा पुच्छाखादैरताडयद तत्पुच्छं तु मुखे धृत्वा गुणेशो बहिरानयद चुचूर्णनिजभारेण गदा सुं विसर्जसः त्यजन्तं रुधिरं वक्त्रान्नदन्दं बलवत्तरं तेन शब्देन महदा चकम्बे भुवनत्रयं निर्ययौ जलमध्यात्स लिलिङ्गं पार्वतीं तदा आनन्दमग्ना गौरीतं स्तनपानं मुदा ददौ मामपृष्ट्वाथ कुत्र त्वं गदोऽसि बालकैः सह ते तत्तद्दैवाद्विनश्यदि मरीचे रक्षणाच्छम्भो कृपया जगदीषिधुं कुरुषे किम् चपलतां रक्षितव्यः कथं मया त्वद्वियोगान् मम प्राणा गमिष्यन्ति प्रियार्भक तदो मुनिगणाः प्रोजुस्त्वां विना दुःखिता वयम् इदानीं पुनरानन्दं प्राप्तास्त्वद्दर्शनाद्विभो पूज्योर्मुनयो नानाद्रव्यैः सख्यस्त्रियोऽपि च नमस्कृत्य गुणेशं तं प्रार्थयन् सर्व एव तं वयं त्वदीया देवेश ननस्त्यक्तुं त्वमर्हसि तदो मा बालमादाय ययौ स्वस्थानमुत्तमम् अनन्तरं गणाःसख्यो मुनयो हर्षनिर्भराः मार्गमध्ये परः शैलनामा दैत्यो महाबलः सर्वशत्रुहरो नक्रदृढाङ्गो शनिनाशनः गिरीणाम् यस्य शब्देन धारणम् जायदे मार्गं निरुध्य सहसा संस्थिरो रोदशी स्पृशद द्वियोजनमस्तको सावधो द्वादशयो क्रीडन्ति सिंहशार्दूलावारणाय सर्वेते प्रोजुकि ते प्रोजुकिमिदं प्रोजु किमिदं विघ्नमुद्धितं तदन्तिके स्थिता गौरी तेऽपि तदस्ते मुनयः प्रोजु अपत्या निगुणेशस्य कदा स्यादत्र विक्रमः गमिष्यदिवधाहोमकालोऽयं न स्वधा क्रियाः गौरी जगाद सर्वन् विखादम् कर्तुमाहनं ममापि चिन्ता सम्प्राप्ता शङ्करस्य हि जायते क उवाच श्रुत्वा वाक्यानि तान्याशु गुणेशो बुद्धिमत्तरः प्रगृह्यदुविराड्रूपं श्वासमात्रा निराकरोद ददृशुर्न च तद्रूपं मोहिता मुनयोऽपि ते तच्छ्वासयोगात्स गिरिर्बभ्रामगने तदा आश्चर्यपरमं प्राप्ता सर्वे दम् प्रशंसि रे वात्यागतम् यथा पत्रम् तद स उपनीतो भुवि सह श्रद्धा भवच्चैलपुनर्वृक्षा चूर्णयद तदस्ते मुनयः प्रोचुः साधु साधु गुणेश्वर दूरीकृतमरिष्ठम् न स्वाश्रमस्था वयम् सुखम् वसामस्त्वत्प्रसादेन स्वस्वकर्मरता भृशं क उवाच यवमुक्त्वा च नत्वा च पृष्ट्वा सम्पूज्यतं ययुः पार्वती च तमादाय विवेश्य निजमन्दिरं सख्यश्च मुनिपत्न्यश्च पृष्ट्वा तां स्वगृहं ययुः इदं यः शृणुयान्मर्त्य सर्वत्र सुखमाप्नुयाद आयुरारोग्यमैश्वर्यं सर्वत्र विजयं तथा इति श्रीगणेशपुराणे क्रीडाखण्डे वत्स शैलासुरवधो नामैकनवतितमोऽध्यायः ओ